हरि श्री श्रीजगदम्बिकायै नमः अथ श्रीमद्देवी भागवतमहापुराणे प्रथमस्कन्धे षोडशोऽध्यायः व्यास उवाच दृष्ट्वा तम् विस्मितम् देवं शयनम्बटपत्रके उवाच सस्मितम् वाक्यम् विष्णो किं विस्मितो यसि महाशक्त्या प्रभावेण तम् मां पुरा प्रभवे प्रलये जाते भूत्वा भूत्वा पुनः पुनः निर्गुणा सा पराशक्ति सगुणत्वं तथाप्यहम् सात्विकी कलया शक्ति तां शक्तिं विद्धि मामिकाम् तन्नाभि कमलाद् ब्रह्मा भविष्यति प्रजापति स्वकर्ता सर्वलोकस्य रजो गुणसमन्वितः स प्राप्य शक्तिमनोत्तमाम् रजसा रक्तवर्णञ्च करिष्यति जगत्त्रयम् सगुणान् पञ्चभूता च समुत्पाद्य महामतिः इन्द्रियाणिन्द्रियेषाश्च मनः पूर्वान् समन्ततः करिष्यति ततः तेन कर्ता उच्यते विश्वस्या सु महाभाग त्वम् वै पालयिता तथा तद्भ्रुवोर्मध्यदेशाच्च क्रोधा रुद्रो भविष्यति ततः कृत्वा महाघोरं प्राप्य शक्तिं तु तां कल्पान्ते सोऽपि संहर्ता भविष्यति महामते तेनाहं त्वाम् उपायाता सात्विकीं त्वं वेहि मां सदाहं तत्समीपस्थासदाहं मधुसूदने ते कृता वासा भवामि सततं किले विष्णुवाच श्लोकस्यार्थं मया पूर्वम् श्रुतम् देवी स्फुटाक्षरम् तत्केनोक्तम् वरारोहे रहस्यम् परमम् शिवम् तन्मे ब्रूहि वरारोहे संशयोऽयं वरानने निर्धनो हि यथा द्रव्यम् तत्स्मरामि पुनः पुनः व्यास उवाच विष्णो तद्वचनम् श्रुत्वा महालक्ष्मी सितानना उवाच पर्या प्रीत्या वचनम् महालक्ष्मी उवाच शृणुषौरेव चो मह्यम् च गुणाहम् च दुर्भया माम् जानासि न जानासि निर्गुणां च गुणालयाम् तम् जानीहि महाभागतया तत्प्रगतीकृतम् पुण्यम् भागवतम् विद्धि वेदसारम् शुभावहम् कृपाम् च महतिम् मन्ये देवशत्रुनियोदन यया प्रोक्तम् परम् गुह्यम् हिताय तव सुव्रत रक्षणीयम् सदा चित्ते न विस्मार्यम् कदाचन सारम्भि सर्वशास्त्राणाम् महाविद्या प्रकाशितम् नातः परम् वेदितव्यम् वर्तते भुवनत्रि प्रियोसि खलु देव्यासम् तेन ते व्याहृतम् वचः व्यास इति श्रुत्वा वचो देव्या महालक्ष्म्या चतुर्भये दधारे हृदि नित्यम् मत्वा मन्त्रमनुत्तमम् कालेन कियता तत्र तन्नाभि कमलोद्भव ब्रह्मा रत्यभयात्रस्तो जगामशरणम् हरे स न कृत्वा महायुद्धम् हत्वा तौ मधुकैटभौ जयापरे भगवान् विष्णु श्लोकार्थम् विशदाक्षरम् जपन्तं वासुदेवं च दृष्ट्वा देवः प्रजापति पत्प्रच्छ परमप्रीतकं च किं त्वं जपुसि देवेश त्व कोक्यधिकोऽस्त्यै यत् स्मृत्वा पुण्डरीकाक्ष प्रीतोऽ जगदीश्वर हरि उवाच मयि च या शक्तिक्रियाकारणलक्षणा विचारय महाभाग या सा भगवती शिवा यस्याधारे जगत् सर्वम् तिष्ठत्यत्र मानवे साकारा या च सनातनी जया विसृज्यते जगदेत जगदेतश्चराचरम् सैषा प्रसन्ना वरदानृणां भवति मुक्तये सा विद्या परमा मुक्ते हेतुभूता सनातनी संसारबन्धहेतु च सैव सर्वेश्वरेश्वरी अहं तम् अखिलम् विश्वम् तस्याश्चित् शक्तिसम्भवम् विद्धि ब्रह्मन्न शोकार्थेन तया प्रोक्तं तद्वै भागवतं किल विस्तरो भविता तस्य द्वापराधो युगे तथा वासुवाच ब्रह्मणा सङ्गृहीतं च विष्णोत्थूनाभि नारदाय च तेनोक्तं बुद्धये नारदेन तथा मह्यम् दत्तं हि मुनिना पुरा मया कृतम् तत्पठस्व महाभाग पुराणम् ब्रह्म सम्मितम् पञ्चलक्षणयुक्तं च देव्याचरितमुत्तमम् तत्त्वज्ञानरसोपेतं सर्वासामुत्तमोत्तमम् धर्मशास्त्र समं पुण्यं वेदोऽनार्थेनोपबृंहितम् पुत्रासुरवधोपेतं नानाख्यानकथायुतं ब्रह्मविद्यानिधानं तु संसाराणवतारकम् गृहाण त्वम् हा भागयोग्योऽशीमतिमत्तरः पुण्यम् भागवतम् नाम पुराणम् पुरुष शव अष्टादशसहस्राणाम् श्लोकानाम् कुरुसङ्ग्रहम् अज्ञाननाशनम् दिव्यम् ज्ञानभास्कर बोधकम् सुफदम् शान्तितम् धन्यम् दीर्घायुष्येकरम् शिवम् शृण्वताम् पठताम् चेदम् पुत्रपौत्रविवर्धनम् शिष्योऽयं मम धर्मात्मा लोमहर्षणसम्भवे पठिष्यति त्वया सार्धं पुराणीं संहितां शुभं सुवाच इत्युक्तम् तेन पुत्राय मह्यं च कथितं किल मया गृहीतं तत्सर्वं पुराणं चातिविस्तरम् शुकोधीत्य पुराणं तु स्थितो व्यासाश्रमे शुभे न लेभे शर्म धर्मात्मा ब्रह्मात्मज इरः एकान्तसेवी विकलः स शून्य इव लक्ष्यते नात्यन्तभोजनासक्तो नोपवासरस्तथा चिन्ताविष्टम् सुखम् दृष्ट्वा व्यासप्रह सुदम्पती किं पुत्र चिन्त्यते नित्यम् कस्माद् व्यग्रोऽसीमानद असि ध्यानपुरो नित्यम् ऋणग्रस्त का चिन्ता वर्तते पुत्र मयि ताते सुखम् भुङ्क्व यथा कामम् मुञ्च शोकम् मनोगतम् ज्ञानं चिन्तय शास्त्रोक्तम् विज्ञाने च मतिं गुरु न चेन्मनसि ते शान्तिवचसा मम सुरत् गच्छत्वम् मिथिलाम् पुत्र पालिताम् जनकेनः स ते महाभाग नाशयिष्यति भूपतिः जनको नाम धर्मात्मा विदेहसत्यसागरः तम् गत्वा नृपतिम् पुत्र सन्देहं स्वम् निवर्तय वर्णाश्रमाणाम् धर्मा पुत्र यथा जीवन्मुक्तस राजसी ब्रह्मज्ञानमतिः तथ्यवक्ताति शान्तश्च योगी योगप्रियसदा सूत उवाच तच्छ्रुत्वा वचनम् तस्य व्यासस्यामित तेजस प्रत्युवाच महतेजाशुकचारिणी सम्भव दम भोय किल धर्मात्मन भाति चित्ते राजम जीवन्मुक् राजस्ते मुद्दी वंध्या राजा भाती राज जनक्रज विधेह किं संदेहोय मूत दृष्टा विदेहम नृपसतम कथम ठतिसारे पद्मत्र सन्देहोऽयं महान्ता विदेहे परिवर्तते मोक्षा किं वदतां श्रेष्ठवापरः कथं भुक्तम् चत् अकृतं च कृतं कथम् व्यवहारन्द्रियाणां मते माता पुत्र तथा भार्या भगिनीकुलता तथा भेदाभेरकथं न स्यात् अद्ये कथम् कचोक्षारम् तथा तीक्ष्णम् कषायम् च रसनाय यदि जानाति भुङ्क्ते भोगाननुत्तमान् शीतोष्णा सुखदुःखादि परिज्ञानम् यदा भवेत् मुक्तदा कीदुर्हीता सन्देहोऽयम् मम धृते शत्रुमित्रपरिज्ञानम् वैरम् प्रीतिकरम् सदा व्यवहारे परे तिष्ठन् चौरं वा तापसं वापि समानं कथम् असमा यदि बुद्धिः स्यान्मुक्त कीदृशी दृष्टपूर्वो न मे कश्चित् मुक्त च भूपतिः शङ्केयं महति कथं नृपे दिदृक्षा महति श्रुत्वा तं भूपतिं तथा सन्देह विनिभूत्यर्थं गच्छामि मिथिलां प्रति इति श्रीमद्देवी भागवते महापुराणे अष्टादशसहस्र्याम् संहितायाम् प्रथमस्कन्धे शुकम् प्रति व्यासोपदेशवर्णनम् नाम षोडशोऽध्याय हे श्रीजगदम्बिकायार्पणमस्तु